ॐ परमात्मने नमः श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे चतुर्दशोऽध्याय व्यास उवाच विचिन्त्य मनसा कृत्यं गादि सोनुर्महात्पः प्रकल्प्य यज्ञसंभारान् मुनिनामन्त्रय मुनयस्तम ज्ञाप्वा विश्वाम नागता सर्वते थे वसीता गो नु तैयार विमनतिमाश्रम त्रा सोनपति स्थित तमे कौशिक क्रधो वसीस््ठन निवाता नागता ब्राह्मणः सर्वे यज्ञार्थम् नृपदत्तमः पश्चमे तपससिद्धिम् यथा त्वां सुरसद्मनि प्रापयामि महाराज वाञ्छि तम् ते करोम्यहम् इत्युक्त्वा जलमादाय हस्ते न मृतमः तदा तस्मै गायत्री जपसम्भवम् दत्त्वाथ सुकृतम् राज्ञे तम् उवाच महीपतिम् यथेष्टम् गच्छ राजश्च तृपि वैश्चपम् त्रिविश्चपमसन्द्रितः पुण्येन मम राजेन्द्र बहुकालार्जितेन च या हि शक्रपुरीम् प्रीतः स्वस्ति चेत् सुरालये इत्युक्तवति विप्रेन्द्रे त्रिशङ्कोस्तरसा उत्पपात यथा पक्षि वेगवान् तपसो बलात् उत्पत्य गगणे राजा गतश्चक्र पुरीं विधाय दृष्टो देव गणै तत्र क्रूरश्चाण्डाल वैशभय कथितोसौ सुरेन्द्राय कोऽयं आयाति सत्वरः गगने देव भद्वायो दुर्दशकुटिः सोत्थाय च कृतम् अपच्यत् धनम् ज्ञात्वा शङ्कुमपि स निभ्य तरसा ब्रवीत् शपचारयासि देवलोके जुगुप्सितः या हि शीघ्रं तपो ततो भूमौ नात्र स्थातुं प्रयोचितम् इत्युक्तः स्खलितः स्वर्गात् चक्रेणामित्र दर्शने निपपातय तदा राजा क्षीणपुण्यो यथामर पुनश्चक्रोश भोपालो च सकृते पताभिरक्ष दुःखातम् स्वर्गाच्चलितम् असुगम् तस्य तत्क्रन्दितम् राजन् पततः कौशिको मुनिः श्रुत्वा तिष्ठति होवाच पतन्तम् वीक्ष्य भूपतिम् तत्रैव स्थितो सौ गगणे नृपहे गुणस्तपत्प्रभावेण चलितोऽपि सुरालयात् विश्वामित्रोऽप्यवाप् स्पृष्ट्वा सकारेष्टिम् सुविस्तरम् विधातुम् नूतनाम् सृष्टिम् स्वर्गलोकम् द्वितीयकम् तस्योद्यमम् तथा ज्ञात्वा त्ररितस्तु शचीपतिः तत्र जगाम सहसा मुनिम् प्रतीतुगाधिजम् किम् ब्रह्मन् क्रियते साधु कस्मात् कोपसमाकुलः अलंसृत्य मुनि श्रेष्ठे ब्रूहि किं गर्वाणि ते विश्वामित्रोवाच संनिवासं महे पालम् कथं तद्धुवनात् विभो नयस्वे पतियोगेन चातिदुःखिताम् व्यासोवाच तस्य तं निश्चयं ज्ञात्वा ङ्कितः तपोबलं विधित्वम् ॐ मिथ्यो वाच स्वदेहं नृपम् कृत्वा विमानवरसंस्थितम् अपृच्छ कौशिकं चक्रो गमन्दि जयपुरीं दद गते चक्रे तु वै स्वर्गं ततः विश्वामित्र सुखम् प्राप्य स्वाश्रमे सुस्थिरो भवत् हरिश्चन्द्रो तत्र श्रुत्वा विश्वामित्रोपकारकम् मनं कामं मुदितो राजमन्वशात् अयोध्याधिपति क्रीडां चकार सह भार्यया रूपयौवनचातुर्य युक्तया प्रीतिसंयुतः अतीत काले युवती न सा गर्भवती तदा चिन्ता सु राजा बभूवतीव दुःखितः वसिष्ठत्याश्रमम् गत्वा प्रणम्य चिरता मुनिम् अनपत्य चिन्तां गुरवे समवेदयत् दैवज्ञोऽसि भवान् कामम् मन्त्रविद्याविचारदहे उपायम् कुरु धर्मज्ञम मानस अपुत्रस्य गते नासि जानासि द्विजसत्तम कस्मासुपेक्षते जानन् दुःखम् मरम च शक्तिमान् कालविन् कलविङ्कास्तु मेधन्या यै शिशुं लालयन्ती मन्दभाग्योऽहं मनिशम् चिन्तयामि दिवानिशम् दासुवाच इत्याकर्ण्यमुनिस्तस्य निर्वेदमिश्रितं वचहे सञ्चिन्त्य मनसा सम्यक् समुवाच विधेत् सुत सत्यं रोषे महाराजे संसारेऽस्मिन्न विद्यते अनपत्ये त्वयं दुःखं यत्तथा दुःखमद्भुतम् तस्मात्त्वम् अपि राजेन्द्र वरुणं यद् सम्पतिं समारायधये यत्नेन स्वते कार्यं करिष्यति वरुणादधिको नास्ति देवः धय धर्मिष्ठ कार्यसिद्धिर्भविष्यति दैवं पुरुषकार उद्यमेन विना कार्य सिद्धिः सञ्जायते कथं नायतस्तु नरे ना कार्य उद्यमस्तत्त्वदर्शिभिः उते तस्मिन् भवेत् न्यथा नृपसत्तमः इति तस्यैव च श्रुत्वा ग्रोहमीत तेजसः प्रणम्य निर्ययो राजा तपसे कुत गंगातीरे गङ्गातीरे शुभे स्थाने कुत पद्मासनो नृपः ध्यायन्त्वाश्च धरं चित्ते चाप दुश्चरं तपः एवं तपस्य तस्तस्य प्रचेता दृष्टिगोचरः कृपया भून् महारज प्रसन्न हरिश्चन्द्रम् वाचेदम् वचनं यद् साम्पतिः वरं वरय य धर्मज्ञष्टोऽस्मि तपसा तव राजोवाच अनपत्योऽस्मि देवेशे, पुत्रं देहि सुखप्रदम् ऋणत्रयापहारथम् उद्यमोऽयं मया कुतः नृपस्य वचनं श्रुत्वा प्रगल्भं दुःखितश्च स्मितपूर्वं ततः पाशी तमाह पुरतः स्थितं वरुणोवाच पुत्रो यदि भवेद् राजन् गुणि वाञ्छितः सिद्धे काले ततः किम् करिष्यसि मे प्रियम् यदि तम् तेन पुत्रेण मां यजेथा विशङ्कितः पशुबन्धेन तेनैव ददामि नृपतेवरम् राजोच देवमे मातु वन्द्यस्तम् यजिषेऽहम् जलाधिपे पशुम् कृत्वा सुतम् पुत्रम् सत्यं वे तद्रुवीमिते वन्ध्यस्वे परमं दुःखम् असह्यम् भुवि मानरे शोकाग्निशमनम् द्रोणाम् तस्माद्देहि सुतं शुभम् वरुणोवाच भविष्यति सुता कामं राजन् गच्छ गृहाय वै सत्यं तद्वचनं कार्यं यद्रवीषी ममागृतः वासुवाच इत्युक्तो वरुणेनासो हरिश्चन्द्रो गृहं ययो भार्यायै कथयामास वृत्तान्तम् वरदानयम् तस्य भार्याश्च सम्पूर्णम् बभुवा ते मनोहरम् धर्मपत्नी पतिव्रता काले गते तथा गर्भम् बभूव मदितो राजा श्रुत्वा दोहदचेति कारयामास विधिवत् संस्कारान् प्रति तद मासे थयाशमे पूर्णे सुशुभे सशुभे दिने ताराग्रह बलोपेते पुत्रन् देवसुतोपमम् पुत्रे दाते नृप्रश्नाथ ब्राह्मणैः परिवेष्टितः सकार दात कर्मादो ददो दानानि भूरिशहे अन्यश्चाति प्रमोदो भूत् पुत्र जन्म समुद्भवः बभूव परमोदारो धनधान्य समन्वितः विशेष दानसंयुक्तो गीतवादित्र सङ्कुलः इति श्रीमद्देवी भागवते महापुराणे च अष्टादशसहस्र्यां संहितायाम् तत्तमस्कन्धे वरणकृपया शैव्यायाम् पुत्रोत्पत्ति वर्णनं नाम चतुर्दशोऽध्याय श्रीजगन्दिकायर्पणमस्तु